हरि ओं क्रे सीता नमः अथ श्रीमद् रामायणे युद्धकाण्डे एकाशीतितमः स्वर्गः इन्द्रजिता मायामेव सीताया वधत् मनस्तस्य राघवस्य महात्मनः स्वनिवृत्या हव तस्मात् प्रविवेश पुरं ततः सोऽनुस्मृत्य वधम् तेषाम् राक्षसानाम् तरस्विनाम् क्रोधताम्रेक्षणः शूरो निर्जगामाथरावणिः स पश्चिमेन द्वारेण निर्ययो राक्षसे वृतः इन्द्रजीत्सु महावीर्य पौलस्त्यो देवकण्टकः इन्द्रजित्तु ततो दृष्ट्वा भ्रातरो भ्रातरौ रामलक्ष्मणो प्रणायाभ्युद्यते वीरो मायाम् प्रादुष्करोत्तरा इन्द्रजित्तो रथे स्थाप्य सीता मायामयीं तदा बलेन महतावृत्य तस्यावधम् अरोचयेत् मोहनाथम् तु सर्वेषाम् बुद्धिम् कृत्वासु सुदुर्मतिः हन्तुम् सीताम् व्यवसितो वानराभिमुखो ययो तं दृष्ट्वा त्वभि निर्यान्तम् सर्वे ते शिलाहस्ता युयुत्सवः हनुमान् पुरतस्तेषाम् जगाम कपि कुञ्जरः प्रगृह्य पर्वतस्य दुरासनम् स ददर्श हतानन्दाम् सीतामिन्द्रजितो रथे एकवेणी धरान्दीनाम् उपवास कृशाननाम् परिक्लिष्टैकवसनाम् अमृजाम् राघवप्रियाम् रजोमलाभ्याम् आलिप्तैः सर्वगात्रैर्वरस्त्रियम् ताम मुहूर्तम् तु मैथिली मध्यवर्त्य च बभूवाचिरधृष्टा हि तेन स जनकात्मजा अब्रवीत् तान्तु शोकाताम् निरानन्दां तपस्विनीम् दृष्ट्वा रथस्थिताम् दीनाम् राक्षसेन्द्र सुतश्रिताम् किम् चिन्तयन् स महाकपिः स श्रेष्ठै अभ्यधावत रावणीम् तद्वानरबलम् दृष्ट्वा रावणै क्रोधमूर्च्छितः कृत्वा विकोशम् निस्त्रिंशम् मूर्ध्नि सीतामकर्षयेत् सां स्त्रियम् पश्यताम् तेषाम् ताडयामास राक्षसः क्रोशन्तीम् राम रामेति मायया योजिताम् रथे गृहीत मूर्धजाम् दृष्ट्वा हनुमान् दैन्यमागतः दुःखजम् नेत्राभ्यां उत्सृयन् मारुतात्मजः तान् धृष्ट्वा चारु सर्वाङ्गीम् रामस्य महिषीम् प्रियाम् अब्रवीत् परुषम् वाक्यम् क्रोधात् रक्षोऽधिपात्मजम् दुरात्मन्नात्मनाशाय केच पक्षे परामृशः ब्रह्मर्षीणाम् कुले दातो राक्षसीं यो निमाश्रितः पापसमाचारम् यस्य ते मतिरीदृशी दृशन्सा अनार्यस्येदृश्यम् कर्म घृणाते नास्ति निर्घृण च्युता गृहाच्च राज्याच्च रामस्ताच्च मैथिली किं तवैषा पराधाहि यदे नाम हंसि निर्दय सीतां हत्वा तु न चिरम् जीविष्यसि कथञ्चन वधार्ह कर्मणा मम हस्त गतो ह्यसि ये च स्त्रीहातीनां लोकाय लोकवध्यै च कुत्सितः इह जीवितमुत्सृज्य प्रीत्य तान्त्रातिल प्रतिलप्स्यते इति ब्रुवाणो हनुमान स्वायुधै हरिभिर्वृतः अभ्यधावयतु सङ्क्रुधो राक्षसेन्द्रः सुतम् प्रति आपतन्तम् महवीर्यं तदनेकम् वनौकसाम् रक्षसां भीमकोपानां अनिकेन निवारयत् स्वताम् बाणम् सहस्रेण शिश्योभ्य हरिवाहिनीम् हनुमन्तम् हरिश्रेष्ठम् इन्द्रजीत् पत्युवाच च रामश्च यन्निमित्तम् ह्यागतः तम् वधिष्यामि वैदेहिम् अद्यैव तव पश्यतः इमाम् भत्वा ततो रामं लक्ष्मणम् त्वाम् च वानर सुग्रीवम् च वधिष्यामि तम् चान्यम् विभीषणम् न हन्तव्या स्त्रियश्चेति यद्भवीषि प्रभङ्गम् पीडाकर यच्च कर्तव्यमेव तम् एव मुक्त्वा रुदतिम् सीताम् मायामयीम् च ताम् शितधारेण खड्गेन निजखानेन्द्रजित यज्ञोपवीतमार्गेण छिन्ना तेन सा पृथिव्याम् पृथुश्रोणी पपात प्रियदर्शना तामिन्द्रजी हत्वा हुणमन्तम् उवाच मया रामस्य पश्ये माम् प्रियाम् शास्त्र निशोधिताम् एषा विशता वैदेहि निष्फलो वः परिश्रमः ततः खड्गे न महता हत्वा तामिन्द्रजी स्वयम् हृष्ट सरसमास्थाय ननाथ च महस्वनम् वानराश्रुषु शब्दम् अधूरे प्रत्यवस्थितः व्यादितास्य नदत तद्दुर्गम् संश्रितस्य तु तथा तु सीताम् विनिहत्य दुर्मती प्रवृष्टचेतास बभूवरावणी तम् हृष्टरूपम् समुदीक्ष्य वानर विषण्णरूपासमभि प्रदुद्रुः इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे एकाशीतितमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु